ओम् सावित्दार जहा लेप्टधो त्रेजदर प्रेवेन जहा चतुष्टादः अशमः पशूने वा ऋष्वेव प्रतिष्ठति छन्दाकं च देवेभ्यो नवो भागाय रक्ष्यामैदितेभ्य एतच्चतुर्भिेतमधारयन् पुरोन भाक्याय याज्यायै देवतायैवकारायश्चतुर्भिः छन्दाकस्येवदर्त्रेणादिदान्यस्य प्रीतानि देवेभ्यव्यं वहन्त्य and come again the pavilion. श्याजित्येकैकन्दस्यजुः यादाहुतेभिदेवेणमगृह्णादिवापीयान् भवतियङ्कामय दवसीयान् श्याजि सर्वाणि तस्यानुद्रत्यजुहो यादाहुदेवेण अभिक्रमय दिवसीयान् भवत्यथो यज्ञस्तैनाभिक्रान्मुखादिध्याय देवतायाष्टावेतानि साभित्राणि भवन् चष्टाक्षरागाय नैव यज्ञमुखादध्या अग्न देवतायै नेत्यष्टौ ध मित्राणि भवन्त्यामुदन्न हमे त्रिपदमेव यज्ञमुखे विजाते यदि कामलेन छन्दाकुं दियज्ञसेना त्वयमित्तुजमन्तमाङ्कुर्याच्छन्दाकृत्यैव यज्ञामले यजमान यज्ञम् कुर्याचमानमेव यज्ञास्तोमकुं समर्भयेत्याहतमध्ये चतुर्भिरभ्रिमादस्ते छन्दाभिलेव देवस्य प्रथव इत्याह प्रथो प्रापि नित्वा यत्र यत्रावधत्तकृष्णवत्कल्माभि भवति रूपसमर्जाते कश्चा पुनश्चार्कस्यावध्येभ्य ममा भवत्येता वद्वै पुरुषे वेद्यम् वेद्यम् मिता परिमिता भवत्य परिमितस्यावरुद्ध्यो वनस्पतीनाम् फलग्रहिस्तरेणाम् वेद्यावान्फलग्रहिर्मेणवे भवति वेद्यस्यावृद्धये यज्ञश्रयदयजेण क्रियतयुमामगर्भं चेत्यस्वाभिधायुष्कृत्यश्च तमध्ये वा विन्दाद्रवेत्यश्च पविदधाति लोपमे महातन्महिमानं व्याजष्टैरुञ्ज्याधागुङ्गादभञ्जुवमिति गर्दभवदत्येव गर्दभम्ष्ठा वयजितस्पादस्वादभोधत्तरो योगे योगे तवस्तरमित्याह योगे योगगेवैनैयुङ्गे वाजे वादेह वामहत्यां वैवाजोऽन्नमेवावरुन्धे सखायीन्द्रमोदयमित्याहेन्द्रियमेवावरुन्धेदेवेभ्यो जनायतं प्रजापजलन्मविन्द प्राजाभत्यश्वे तं भरत्य निमित्यैवादे यथा जावैराजतपादनकर्म कुर्वन्त्य यन्ति भवता श्रेयादुतं भवते ज्रश्च प्रतोणेक्यवक्रामन्मथस्ते नित्याह वज्रे नैव पात्मानं भ्रातम्यमवक्राम च रुद्रस्य काणवत्यादित्याः पशवो रुद्रादेव निर्याच्चात्मने कर्म गुरुदेत्याह फलम् पृथिव्या स्वाज्ञम् पुरेश्च मङ्गिरस्पदच्छे हेत्याहसायतनमेवताभिस्सम्भरत्यज्ञम् पुरेश्च मङ्गिरस्पदच्छायेन सङ्गच्छ देवायमेवास्य वृन्द प्रजापदयसंभृत्य इत्याहुर्यं वै प्रजापतिस्तस्यादेतच्छम् पुरेश्च मङ्गिरस्वद्धरिष्यामयिवल्मि ष्ठते साक्षादेव प्रजापतये प्रतिपाक्षाज्ञम् पुरेत्याहेन सङ्गक्ष देवाच्यमृत्या वा जध आक्रम्य वा जन् पृथिवे विद्याहेच्छत्येवैोया विन्दत्युत्तरयात्माभ्यामाक्रमय नितिष्ठत्या भ्यानुरोपात्मसः प्रजायन्ते पृष्ठम् पृथिवेकधस्तमित्याहयेभ्यो वाजापदस्तमेरयद्रोपमेवा शैतन्महिमानम् व्याचष्टे वज्रेवादस्मोदद्भिरन्यतोभयादद्भ्योऽयम् दृश्यात्मधर्मदन्ध्यायेद्र नैवेन ग्रस्तृणते क्रामोदक्रमेण निद्वाभ्यामुक्रमये प्रदक्षत्याहनलोपाभ्यान्तस्मादनलोपा पदवः प्रजालयन्ते पदौषधे प्रतिष्ठन्ते पदवानः प्रतिष्ठन्ते पशोलज्ञो यज्ञस्मादवर्यस्यागन्त्यज्ञ भर्यग्भवजनयज्ञगौ रक्षाकम् जघ्रन्ति निघर्मम् मनसा हृदयेनेत्याह मनसाभिज्ञमभिलक्षनिपदिष्यन्तम् भुवनानि विश्वेत्याहधर्मभग्येन प्रत्यङ्गैरिरश्चाभयसा भृगन्तमित्याहान्त्येषातो महान् भवतिव्यतिष्ठमन्न गौरवसंविधानमित्याहान्नस्मै सर्वमस्मै स्वरते भिगच्छति तद्माजाक्तदेत्याह रक्तमहत्येव य श्रेश्वः पलिमेवन् भवति एवं वेदमनधा प्तुमयापदे यज्ञमुखे यज्ञमुखे वैमाने यज्ञगुं रक्षागुन्द्रिखागुम्खैयस्तस्मात्र वहन्ति गायत्रिया परिलिखति ते न वे भात रवे गायत्री यज्ञादृष्टुजम् द्रियम् द्रष्टप्तण चो भयतो यज्ञम् परिगृह्णाति ेवस्यत्वाेतेन जनयति ज्योतिष्पन्दन्त्वाग्ने सुप्रदेकमित्याह ज्योतिरेवेतेन जनयति सोऽ प्रजाश्रितात्मयत्तम् देवार्थना शमयच्छिवम् प्रजाभ्यो हिगंसन्तमित्याह प्रजाभ्यलेवेन गुं शमयदित्वा पुष्करपर्णव एतत् पृष्टम् यत् पुष्करपन्नगौ रूपेण नैवेन आहरति पुष्करवर्णेन सम्भरति यो निर्वाग्ने पुष्करवर्णगौ भयोनिमेवज्ञगौ सम्भरति कृष्णाजिनेन सम्भरति यज्ञो वैकृष्णादिने यज्ञेनैव यज्ञकौ सम्भरति यद्राम्यानाम् पशूनाञ्चर्म सम्भरेत्मके कृष्णाजनेन सम्भरति र्पयति तस्मा समावत्पशूनाम् प्रजायमाना भक्तगुंसुताश्युता नेभ्यञ्जनादिनम् च पुष्कर भेयं वेत्नादिनमसो पुष्कर बण्डभाभ्यामेव परिगृह्णा चक्रदेवेभ्यो दिनागतम सर्वान् न्यत सर्वात् त्याहरिदेवैन मन्मपश्यत्य नैवष्करा दधेत्याह पुष्करपण्त्या ह्यङ्गणश्चागुं त्रिचन्दोऽ गायत्रेभिभ्राह्मणस्य गायत्रो हिब्रानस्तृष्टग्त्रैस्तभो हिराजन्य तपसीयाभयेभिष्टश्च सम्भरेत्यष्टैवा स्मारिन्द्रियञ्च समेत्यष्टाभिस्तम्भरत्यष्टाक्षरा गायत्री गायत्रो यावादेवाज्ञं धरित्या देवतां साध ति मनुष्यावयाग्रे अह्नामित्याहदेव मनुष्यामेवात्प्रेसकम् सन्धान् प्रजनयति स्यानेतत्कराक्षणत्यपुपत्याभिदेवा जगं शमयन्ते वायुवादष्मायप्राणेनैवास्यैः प्राणं वायुरीत्या हटस्वायप्रच्युतादिवृष्टिरेत्येतस्मै जनस्तदभ्यमित्या हट्वादवरजस्मै सर्वा जगोयामाश्चस्यागम्पणित्याहत्करोधयामागम् रक्षागम् त्रिसुजातो ज्योतिनादयत्रागम् प्रियात एवम्भरोद्भूषणभूतयेतप्रदोत एव स्योद्भ्याम् वरुणमेधमुत्सृजयित्वाभ्याम् प्रतिष्ठितेभो यदज्ञस्मादेवमाहा भवति प्रमादभ्याकृयित्याहोस्य पादरस्ताभ्यदेवेनं प्रच्यावेति स्थिर भवेद्वङ्गयिति गर्दभासानेति सन्नच्येतया सम्भरति तस्मात् गर्दभः पशोदार्दभेन सम्भरति भरस्माभोद्यरेता सङ्कनिष्ठम् पशूनां प्रजायते योनिन्यर्गहरे प्रजा सुवादेशे तस्यारूढस्वरेश्वरः प्रजाश्रिदा प्रदः शिव भव प्रजा दैत्याः ेवेन मारुमङ्गिर्याहवानव्यो हि प्रजावाद्या वापृथिवे अभिजोमान्तरिक्षम्मा वनस्पते नित्याहैश्यमयति प्रैतुवादे कनिक्रदीत्याहवादेशनानसद्रासभक्पत्याहदासभगिनिश्चरन् अग्निम् पुरेष्टमित्याहा पुरेत्याहायुदेवास्मिन् दधारितस्मात् गर्दभः सर्ववायुवेदितस्मा गर्दभे पुरायुधप्रवेदृभ्यतिवृषाज्ञम् वृषणम् भरन्नित्याह वृषाश्च वृषाज्ञलपाङ्गर्भगम् समुद्रयमित्याहायश्यगर्भोयज्ञरग्नायाधिपेतर इति वायुवो लोको वेताभग्नायाधिवेतर इति यदाय लोकय 87 yeah. प्रच्युतो वायतनादगतः प्रतिष्ठागं प्रेतश्चर्यं च विधमानं च ध्यागत्रमित्याहेयं जन्म अपजर्मदिगोहन नित्याः प्रदेशे प्रतिमोदभ्रमेण मित्याः औषधयो वाज्ञैर्भागयन्त अभिरेवेण समर्धयति पुष्पावस्तु विफला इत्याहतस्मादोनः फलम् गृह्णत्यगम् भोगद्भरित्ययः प्रत्रगम् सशस्थमासुरदित्याहयाभ्यदेवेणम् प्रख्यापयदिेवैम् प्रतिष्ठापयदि द्वाभ्या भवावहरति प्रतिष्ठित्यये ुणावाग्निरुपणध्वा विवा जयति विस्रगुं सैदर्प्रसूतनेवास्य विषोजेम् वरुणमेणिम् विसृजत्यव उपसृजत्यापो वै शान्ताः शान्ताभिदेवास्य सुजगुम् शमयति पितृभिरुपथित्रभृत्वार्यावानेवाज्ञस्तस्य सुजगुम् शमयति मित्रस्तकुं सृत्य पृथिवीत्या शिवा देवानान्तेन कुंसकुं सृजति शान्ते यत्र प्राणिसृतात्पर्यलैः सगं सृजत्येतानि वा अनुपजेवनेयात्पयतिसर्कराभिस्तकं सृज विधृत्या अथो सन्तायाजलोमैः सगं सृजत्येतदा वा अग्नप्रियातनोर्यजजा प्रियदेवैनन्दनभाषगं सृजत्यथो यामभि यज्ञो वै कृष्णादिनैयज्ञेनैव यज्ञकं सगं सृजः संभृत्य पृथिवे वृत्याहैतावायेतन् देवतार्के समभरन्ताभिरेवत्याह यज्ञो वै मगश्चैतच्छयोगादस्मादेवमाहयज्ञस्य पदेशे सत्यं पङ्गेर्मन्त्रय चितुता यत्रयिमे लोकाने छन्दाभिक्त जिवेद्यं वैच्छन्दाकुं जिवेद्येन वै नाहं याभिलङ्करो ेवृत्यर्थाय प्रहरस्कृत्ये कृत्वा य सा मही मुखामिति निर्धारि देवताः सेवैनाम् प्रतिष्ठापयति सप्तभ्यर्थोपयति प्राणान् सप्तशीर्घण्टा अश्वशयेन धूपयति प्राजावत्यो वा अश्वस्तयो नित्वाजादि हेयं वा अधिर ैवादित्याङ्ख्यस्याक्रूरङ्कारायणस्वगुम्भिरस्ति देवानात्याः देवानाम् पत्रयोग्रे गुरुपन्ताभिदेवीस्तेत्याह विद्याभिजना विद्याभिदेवी नेग् नास्तेत्याः छन्दागुं शिवैग्नाश्छन्दाभिदेवेनागश्यवयेव त्रयोः प्राभिलवैनाम् भजतजनयस्य भिदेवत्याहस्मात्सहस्रं वैदिशान्ता पृथिव्या ृहती भवतिष्ठध्रुवाक्रमित्याः प्रतिष्ठित्याक्षणत्यम्बालक्षेलम्बरवेपयदाक्षणत्रे जना व्यावृत्ते छन्दभिराक्षणत्यछन्दभिर्वादेशा क्रियते छन्दभिरेव छन्दागस्ताक्षणत्ये एकविंशत्यामाशै पूर्णदेवमध्यैरेत्यमेध्या वै माजामेध्यम् पूर्णदेव ममेध्यैवास्यामेध्यन्तरमदायमेध्यम् कृत्वा हरत्यैकविवंशजर्भवन्त्यैकविहुंसा वे पुरुषः पुरुषस्यात्तेव्यम्बातत्प्राणेकमेध्ये यत्पूर्णवेशंसत्तथा विदन्नाम् वल्मे प्रचलितवैशेषण्या प्राणाप्राणैरेवै नसमध्यैरिमे ध्यत्वाभि यावन्तोऽ वै मृत्युबन्धमस्ते यम आधिपत्यं परियाय यमगाथाभिपरिगायति यमा देवेन वृङ्के परिगायति लोकादेभ्य एवेन लोकेभ्य वृन्ते तस्मात् गायतेन देयङ्गाथाभिन वृङ्केभ्यः पशोदालभते कामावाग् रुन्धे यत्पशोन्नानभेदानवरुद्धास्य पशवस्तुर्यज्ञकृतानुसृजे यत्पशो नानभते तेनैव पशो न वरुन्धेण पर्यज्ञकृतानुसृजति शेत्तामयादयामत्वाय प्राजाभक्तेन सर्गस्थापयति यज्ञो वै प्रजापति यज्ञ एव यज्ञं प्रतिष्ठापयति प्रजापति प्रजा असृजतशरिचानमन्यत सेता प्रेरवशत्ताभि भवन्ति यज्ञो वे प्रजापद वे वेताभिर्मुखद आप्रेणापद प्रजापदे हात्यागोनातिरिक्ताभिसुना प्रजाभजं वैनामेतच्छन्द प्रजापदेशवजा पशूने वा वरुन्धे सर्वाणि वा एतारूपाणि सर्वाणि रूपाण्यग्नौ जित्येव क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्त्येकविगुंशदिगुंसा विधेनेरन्वा हरुग्णैकविपुंशोऽर्धमेव <laughs> गच्छत्यथ प्रतिष्ठामेव प्रतिष्ठात्यैकविपुंशश्चतुर्विपुंशरिमन्वाह चतुर्विगुंशतिरर्धमा संवत्सरः संवत्सरो वाग्निरु क्षादेवर्गोलोकर्धयन् विद्याग्निं वर्धयत्रित्याहतस्मादग्निः सर्वादिशा निभानि प्रत्योहतामश्विना भृत्यमस्मादित्याह मृत्युमेवास्मादवत्युद्वयन्तमशस्परेत्याह स्वादपहन्तज्ज्यो निरुत्तममित्या हादौ वा आदित्या ज्योनिरुत्तममादित्यस्यैवदायुज्यम् गच्छ जनसंवत्सरस्तिष्ठदिनाश्च श्रेस्तिष्ठदियश्रैता क्रियन्ते ज्योतिष्वदेमुत्तमावन्वाहज्ज्योतिरेवास्मा उपयष्टात्मधा जतुभर्गस्य लोकस्यायुख्यात्यै षड्भिर्देक्षै षड्वा रदवरदभिम् देक्षयति सप्तभिर्देक्षयति सप्त छन्दागुछन्दोभिरेवणम् देक्षयति विश्वे देवस्य नेतृत्यष्टुभास्मात् प्राणानाम् पाकुत्तमैकस्मादक्षराधनाप्तम् प्रथमम् पदञ्चस्मात्यद्वाजोष्या उपजीवन्ति भोन्नया जहोति प्रजापदे प्रजापते प्रजापदे प्रजासजन प्रजानागम् यदर्च प्रवन्ध भूतमवरुन्धे जयलङ्गारेषु भविष्यदङ्गारेषु प्रवर्णग्नि भविष्यदेवावरुन्धे भविष्यद्धि भोज भूताभ्याम् प्रवर्णक्नः प्रच्चे ब्रह्मणावादेशाय दुषा सम्भृताय दुःखाय जमानो भूति कामस्याद्यकायी सम्भवेत् स देव तस्य स्यादधाेन वै स्वयं कामने न भ्रातुर्यमस्मै नयेत्यन्यतस्तस्यावदध्यात् साक्षादेवास्मैभ्यादुर्यलयत्यं परे जादन्तकामस्यावदध्यादम्बरे देवान्नवरं ध्ये मञ्जानवदधा स्वा अपि तथा चकर्द कृकम् प्राविशत्कृकमवदधा जय देवावरुन्धाज्येन एतद्वा हज्ञे प्रियन्धा भगराज्यम् प्रियणैवेनधाम् नादमर्दयत्यथोते यथा वै गङ्गदेवादधातिभा एवावरुन्धे चेपादथा दिशान् देशेन त्वम् मातुरस्या उपस्थगिति जातमुपतिष्ठते स्वामिनम् गच्छत्र प्राणानेवात्मन्धस्वे न हस्मै पुराग्रपरशुक्ष्णन्दहस्मै प्रयोगणेव रचिरस्मदयज्ञलग्ने जानि कानि चेति समिधमादधात्य परशुवर्गमेवास्मै स्वदयति सर्वमस्मै स्मद एवं वेदूलम्बरे मादधा योर्वाम्बरवोर्ध्यमेवा स्वाभि प्रजापतिरग्निवसृजिघागम्पश्यते नवेन रक्षागस्य पाहभयद्रा क्षोघ्रम् भवते न जाता रक्षागस्य पहन्त्याश्वत्थे वा दधात्यश्वो वेवनस्पदे नायुंसपत्रधा ैवैकङ्कजय मादधातिभा एन्धेशमेव जयमादधातिभान्ते ब्रह्मो देशां बाहुमित्युत्तमे औदुम्बरे वाचयति ब्रह्मणैव क्षत्रगुंसगच्छति क्षत्रेण ब्रह्मदस्मा ब्राह्मणो राजन्यमाणध्यस्मा राज्य ब्राह्मणवाणधन्य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 न्तरं प्रतिमुञ्चते कृतमेवोरन्तर्धत्तरेकविपुंशज निर्बाधो भवत्येकविपुंशतिर्वैदेवलोकादशबाधात्तभस्त्रैवेका असावधित्यरेकविपुंशदेतावन्तो वै देवलोकास्तेभ्यदेव भ्रातव्यै देवासुराधे गुर्वदर्बाधाना धे भव देभ्रातं व्याधे गुरुदे सावित्रया प्रतिमञ्चरेत्राभ्यामेवैनमुद्यच्छदेव्यन्धारयं द्रविणोदा इत्याह प्राणा वैदेवत्र विणोदा अहोरात्राभ्यामेव प्राणेदाधारादेन प्रतिमुञ्चते तस्मादादीरः प्रजा प्रजायन्ते ्रह्मनष्टा जनन्त्यं ब्रह्मणाचोभयतः परिगुह्णाति षडुद्यावगं शक्यं भवति षड्वारतवर्तुभदेवैनमुद्यक्षते यद्वार्यावगं संवत्सरेणैवत्योर्गुञ्जां समत्सरे तुमानं व्याजत्ते दिवं गच्छतु पदेत्या मधुभर्गमेवैनम् लोकम् गमयति समिद्धो अञ्जन् कृतरम् मदीनाम् घृतवर्गेव समक्तिम्बपानः वाजे महन् वाजिनम् जातवेदो देवानाम् भक्षिप्रियमानस्थम् घृतेनाञ्जन् सम्पथो देवयानाम् प्रजानुम् भाज्यप्येतु देवान अनुत्पा दत्ते प्रतिदस्तजन्तायस्वधा हस्मै यजमानाय धेहि येज्ञश्चाधिवन्द्यश्च वाजन्माजश्चाधिवेद्यश्च दप्ते अर्दष्पादेवे मदुभ्यस्तोढाः प्रेदम् वह्निम् बहतु जातवेदाः स्थीर्णम् देवेभिर्युक्तपतिः सजोढाः स्योनङ्कण् एता उपस्तुभगा विश्वरो पापिवक्षो विश्रयमाना उदातैः ऋषाः सदे कवटः शुम्भमाना द्वारो देवे सुप्रायणा भवन्तु अन्तरा मित्रावरुणाचरन्ति मुखै यज्ञानामभिजम् विधाने उषासा भागुम् सुखिरण्येषु शिल्पे हृदस्य यो न विगता दयामि रमा भागुम् स रथिना सुपर्णा देवो पश्यन्तो भुवना निष्पाः अभिप्रयम् चोदनाभामिमानाहोता राज्यवजप्रतिशा दिशन्ताः आदित्येत् नाभारदेव यज्ञकम् सहस्वदेश्रैर्न ष्टजायज्ञम् नो देवी नेषु धत्ता तावीरम् देवकामञ्जजानत्वष्टर्वा जायत आशुरश्वः तृष्टेदम् विश्वम्भुवनञ्जानमहोः कर्तानमिहयक्षिहोदः अश्वहृतेनः पादयेदोद्येव लोकम् प्रजाणन्नग्निनाहव्यानि वक्षते प्रजापतेस्तपदावावृधानः सद्यो धातो स्वाहाकृतेन हविषा पुरोगाजाहिषा हविरन्तु देवा ओ विष्णुमुखावै देवाच्छन्दोभिनिमान् लोकानपय्यमभ्यजयनयत्यष्टक्रमान् क्रमते विष्णुदेव भूत्वा यजमानश्च भिरे लोकाननपजेयमभिजय जमिष्णाक्रमास्तु विमार्येद्याह गायत्री वैशिवेष्टु भवन्तरे रुन्धय देतामन्वाेतया प्रियन्धामावरुन्धरेश्वरोपष्टक्रमाक्रम श्च दक्षिणा पर्यावर्तते स्वमेव वीर्यवर्यावर्तते तस्मात् दक्षिणाद्धत्यस्यैवावृतमनुवर्तते शुनशी गतिं वरुणो बृह्णात्से वारुणेव या वेद आत्मानं वरुणपाजालमुञ्च गृह्णादि उदत्तमं वरुणपाशमस्मदित्याहात्मानमेवेतयाचलित्याः प्रतिष्ठेत्यं समर्थयत्यस्मिन् राष्ट्रमेवास्मिन्ध्रुवमखलिजङ्कामयेत राष्ट्रग्रस्याजितं मनसाध्याये राष्ट्रमेव भवत्यग्रहन्मृतास्थादित्याग्रमेवाहतमजेवास्तादपहन्तिकादित्याह ज्योतिरेवास्मिन् दधादेवा भवति ष्णवारिच्छन्दा वर्ष्णेवेन सत्त्वमेवेन गमयतिप्रेणोपतिष्ठतयते न वीणसप्रेऽर्थानन्दनो वाग् प्रियं धामावारुन्धाग्ने वैतेन प्रियं धामावरुन्ध एकादशं भवत्यैकैव यजमानय न्दति स्तोमेन मे देवा अस्मिन् लोका द्रुवञ्छमस्येव खलु वा नोपै यद्वा सप्रै्यद्वा सप्रेणोपतिष्ठत इवमेव तेन लोकमभिजय देद्भ्यश्चक्रम द्रमदेवमेव देव लोकमभिजय दिवोर्वेद्यः प्रक्रमत्युत्तरेद्यरुपदिष्टोगे न्यासा प्रजाणां मनः तस्माद्याया वरः क्षैक्षै मध्यमस्तरे मुष्टिकरोति वाज यच्छति यज्ञस्य धृत्यै अन्नपदेऽन्नस्तनो देहेत्याः वा अन्नपदस्त देवा स्म अन्नम् प्रयच्छत्य न वेवस्य शुष्मिणयित्याह यक्ष्मस्य दिवा वेतदाः प्रदातारन्तारिणवो जन्नो देहे दिवदे च दष्पदयत्याहासिषमेवेतामाधास्तमुदत्त्वा विश्वदेवाह प्राणाविवेश्वदेवाः प्राणे देवै नमुद्यक्षतेभन् त्यभिरित्या हयस्पादेवैनं चित्तायाद्यच्छदेते देवेन चित्तां तिषन्दाभिदेवादिच्छन्ददः छन्दसान्दावस्मैवेणं समानानाहङ्करोति सद्वजे भवति सत्त्वमेवेण गमयतिप्रेतज्ञे ज्योतिष्पादि गाहेत्याहज्योतिदेवास्मिन् दधाभाव ज्ञत्यन्दनित्यन्वाहत्या दादित्यं क्रियते तादृगेव तद्गायत्र्याभ्राणस्य गायत्रो हि भ्रा भुभाजन्यस्य त्रैष्ट्य भो हिराजन्या शुभस्त्व प्रवेदयत्यक्षयो निर्वा अग्निस्वामेवैन योनिङ्गमयतिभिप्रवेदयतिष्ठाङ्गमयति परा ज्योतिष्पदेवास्मिन् रिपुनरुये रिपुनरुदे प्रजामेव पशो नास्ता रुद्रापसवस्समिन्धतामित्याहतावाहेन्द्रे समैता ुपतिष्ठते बोधय तस्मात् सुत्वा प्रजात प्रबुध्यन्ते यथा स्थानमुपतिष्ठते तस्माद्यथा स्थानम् वजवः पुनय चोपतिष्ठान् या पदेस्ति यमायत्रम् परी या हिरो वै यमन्ते भैर नमस्या tamam. निर्या चाज्ञृते यमालैकुंसज नुते वेदे यद्ध्यवसाययति यमदेवदे भैर नमस्यै निर्या चात्मने नृतेष्वग्रे नमा अस्यानामतमिच्छन्तो न विन्दन्ते देवा पश्चन्नपेते किञ्चिन दबुद्धम्पहन्तद्वाष्मा नरस्य रूपगौरूपेणैव वैष्मा नरमोबन्धदोषाण्यश्चा व्रजलनैयदोषा पुष्ट्यामेव प्रजनयज्ञाने अब्रोतामस्ते वनौ सहपिते रमस्या नित्यजमाधेत्तरस्यामदधात्तवोषा अपवदे तस्यानित्यजमाधेत्तरमुष्यामदधात्तरश्चन्द्रम कृष्णवोषाण्डला लोक्रं भवत्येतेन मे विश्वामिन प्रियं छन्दाभिर्वेदेवास्वभर्गं लोकमायन्त्रे धानि चत्वारि छन्दाव्युन्दभिरेवजमानस्तु भर्गं लोकमे जितेजाकं जनान्त्रा समे चेताभिर्वे देति सादुरौ भवेद्वयपरस्तात् समे चेपदधा विद्वयपश्चात् समे चे दिशाम् विधर्त्यापशपो वैषन्दागंसि पशो नेवा समे च दधाष्टावुपदधाष्टाक्षरागायत्रीगायत्रो वाग्यस्तञ्चलेष्टावुपदधात्यष्टाक्षरागायत्री गायत्रे तु भर्गम् लोकमञ्जदा वेद तु भर्गस्य लोकश्च प्रज्ञा त्रयोदशलोकम् प्रणा उपदधाकविकंशतिः सम्पद्यन्ते प्रतिष्ठा भागेकविकंशः प्रतिष्ठा गार्भवत्य एकविकंशस्यैव प्रतिष्ठा गार्भवत्य प्रत्यज्ञञ्चि ज्ञानस्तिष्ठति एवं वेद पञ्चजिदेकञ्जन्वेदप्रथमञ्जन्वानः पान्तो यज्ञः पान्ताः प्रसवो यज्ञमेव पशो नवरुन्धे त्रिजुते ेजमे लोकायेष्वेव लोके गच्छति किञ्चिन्वेदति किञ्चिन् वारणे कथा वेदवर्गो लोके कमृदेवर्गं लोकमे त्रिपुरे जैनाभ्यो हरितस्मान् छन्दन्नश्चर्मा भवति भवन्ति पञ्चभिः पुरेजैनभ्यो हरित सम्पद्यन्ते प्रतिष्ठते yeah,